श्रीमद्भागवत् महापुराणं दसंस्कन्ध अथाष्टाविंशोऽध्यायः वरुणलोकसे नन्दजीको चूडाकर्लाना श्रीशुकुवाच एकादश्यां निराहारशमभ्यर्च जनार्जनं स्नातुं नन्दस्तु कालिन्द्या द्वादश्यां जनमाविशत अहं तं गृहीत्वा न्यद्भृत्यो वरुणस्याशिरोऽन्तिकम् अविद्याया सुरीं वेलां प्रविष्टम् उदकं निसि शुक्रुषु सन्तमपश्यन्तः कृष्णरामेति गोपिकाः भगवान् तदुपश्रुत्यपितरं वरुणाहितं तदन्दिकं गतो राजन् स नामभयदो विभो प्राप्तं दक्ष्य शिशिकेशं लोकपालशपर्यया न हत्या पूजयित्वाह तद्दर्शनमहो शवः वरुणुवाच नद्य मेरिभृतो देहो दैवार्थोऽधिगतः प्रभो तत्पादभाजो भगवन्नपूर्णवापोपारमध्वनः नमस्तुभ्यं भगवते ब्रह्मणे परमात्मने न यत्र सूयते मायालोकसेष्ठे विकल्पना अजानता मामकेन मूढेनाकार्यभेतिना आनीतोऽयं तव तो पिता तद्भवान् छन्तुमर्हति न माप्यानुग्रहं कृष्ण कर्तुर्मर्हस्य शेषरे गोविन्द निता मे स पिता ते पितृवत्सल तेषो उवाच एवं प्रसादितः कृष्णो भगवानेश्वरेश्वर आदायागा स्वपितरं बन्धूनां चावहन्मुदम् नन्दन्त्वतिन्द्रियं दृष्ट्वा लोकपालमहोदयं कृष्णे च सन्नतिं तेषां जातिभ्यो विस्मितो ब्रवीद् ते तु सुख्य धियो राजन्मत्वा गोपासमेश्वरम् अपि न स्वगतिं सूक्ष्मं सूक्ष्मामुपाधास्य दधीश्वर इति स्वानां स भगवान् विज्ञायाखिलदिक्ष्वयम् सङ्कल्पसिद्धयेतेषां कृपयैतदचिन्तयद् जनो वै लोक एतस्मिन्न विद्याकामकर्मभि उच्चावचासु गतिसु न वेदस्वां गतिं भ्रमन् इति सञ्चिन्त्य भगवान् महाकालुणिकोहरिः दर्शयामास लोकं संगोपानां तमस परं सत्यं ज्ञानमनन्तं यद्ब्रह्मज्योतिसनातनम् यद्यपश्यन्ति मृयो गुणापाये समाहिताः ते तु ब्रह्मृदं निहिता मग्ना कृष्णेन चोद्धृताः दधुर्ब्रह्मणो लोकम् यत्रा क्रूरोऽध्यगात्पुराम् नन्दादयस्तुतम् दृष्ट्वा परमानन्दनिवृताः कृष्णं च तत्र छन्दोभिः स्तूयमानम् सुविस्मिताः ते श्रीमद्भागुते महापुराणे पारंशां शैतायां तसंस्कन्दे सर्वाधेष्टाविंशोऽध्यायः